वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयताम् तेनेशस्य विधीयतामपचितिः काम्येमतिस्त्यज्यताम् पापो घः परिधूयताम् आत्मेच्छाव्यवसीयतानि च गृहात् तूर्णं विनिर्गम्यता सङ्गसत्सुविधीयतां भगवतो भक्तिर्दृढाधीयताम् शान्त्यादि परिचीयतां दृढतरं कर्माशु सन्त्यज्यता सद्विद्वानुपसर्प्यतां प्रतिदिनं तत्पादुका सेव्यताम् ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरो वाक्यं समाकर्ण्यताम् वाक्यार्थश्च विचार्यतां श्रुतिशिरः पक्षः समाश्रीयताम् दुस्तर्कात् सुविरम्यताम् श्रुतिमतस्तर्कोऽनुसन्धीयताम् ब्रह्मैवास्मि विभाव्यतामहर हर्गर्पः परित्यज्यताम् देहेऽहं मतिरुध्यताम् बुधजनैर्वादः परित्यज्यताम् क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यताम् स्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन सन्तुष्यता शीतोष्णादिविषह्यतां न तु औदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्यमुत्सृज्यत एकान्ते सुखमास्यतां परतरे चेतः समाधीयताम् पूर्णात्मासु जगदिदं तद्वाधि जगदिदं तद्बाधितं दृश्यत प्राक्कर्मप्रविलाप्यतां चितिबलान्नाप्युत्तरैश्विष्यत प्रारब्धन्त्विह भुज्यतामथ परब्रह्मात्मनास्थीयत आम् यः श्लोकपञ्चकमिदं पठते मनुष्यः सञ्चिन्तयत्यनुदिनं स्थिरतामुपेत्य तस्याशुसंसृतिदवानलतीव्रघोर तापः प्रशान्तिमुपयाति चितिविप्रसादात्